देवो देवेभ्यः पातु पायुरन्तरिक्षार्जमानोऽर्मा पातु चक्षुषः सक्षसोर्विश्वदर्षणेतेभिस्वो मनामभिर्विषे मते तेभिस्वमनामभिर्विषेमते अहम् परस्तादहमवस्तादहम् ज्योतिषापितमोपवार यदन्तरिक्षन्त तु मे पिता भूदः कुंसौर्यमुयतो ददृशाहम्भूयातमुत्तमः समानानामाथमुद्रादान्तरिक्षा प्रजापतिर्वधिावजातेन्द्रप्रश्नौ तु मरुतो वर्जयन्तोन्नम् भयपृथिवीम् भ्यन्धेरम् दिव्यम् नभः दिव्यश्च न देहीशानो विसृजाति पशवोपादेते यदादित्यकेशरुद्रो यलोषधे प्राशाज्ञावादित्यञ्जहोतिरुद्रादेव पशूनन्तर्दुधाेव पशून् प्रतिष्ठापयति कविर्जज्ञस्य वितनो चिबन्धान्नागस्य पृष्ठे अधिलोचने दिवः एनः व्यम्बहसिजाति दूत इतः प्रचेता अमुतः शरीरान्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 सन्तानक्यामि वरसाघृतेन सन्तानक्याम्यपोषधीभिः सन्तानक्यामिप्रजगाहमत्यदादीः क्षिदासनभोवाचमस्मे प्रैतब्रह्मणस्पत्नीवेदिम् पन्ने न सीदतो अथाहमनुकामिनेऽस्मे लोके विशायिषा प्रजलस्तावयम् सुपत्नेनुपसेदिवा अग्नेदपत्तदम्भनपदभ्यासो पदाभ्याम् इमम् विश्यामिवरुणस्य पाशय्यमपद्धेत सविधा सुकेतः धातुश्च योनौ तु तस्य लोकेऽस्योऽनम् मे सहपत्या करोमि ुरे स्थिरस्य वामीरम् भग्त्यर्मभ्यं दददागम् रुद्रावदृष्टादि युवानाममामाहिकम् अतुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः पन्ने जने गृह्णामि ज्ञानवः पन्ने दने साधयामि विश्वस्य विश्वावतो वृष्टिरावदस्तवाराग्ने वामीरनुसन् विश्वाहेतागुंसि देवे देवेभ्यो निज्ञवधरन्नस्मिन् सम्पदेजमान आदिरस्वाहाकृताः समुद्देष्ठागम् धर्मपादष्टा नेदिताः अटत्कारो वेगायत्रिराक्षिदत्तस्तेरसः परापतत्स पृथिवे प्रात्सखतिराभवद्यस्य खादिरस्पृवा भवति छन्दसाय परसेनावद्यतितरसा अस्याहुदया भवन्ति तृतीयस्यामितो मधेत्त गायत्र्या दत्तस्य पर्णमच्छिद्यस्य पर्णत्वयस्य पर्णमदीजो भवति सौम्या देवा देवा वै ब्रह्मन्नवदन्तपावेनाभयस्य पर्णमली जुरोप श्लोकं शुणाब्रह्म वे पर्णाविण्मरुतोन्नं विण्मारुतो स्वोरश्च पर्णमली जुरोन् भवत्या स्वच्छ भवन्नमवरुन्ध ब्रह्मैव अस्य द्यो हतिराष्ट्रं वे ब्रह्मो भवत्याश्वमेव विष्यो हति प्रजापतिर्वात्सा यत्रा प्रत्यतिष्ठत्ततोमिकङ्कतमुदतिष्ठत्तरः प्रजा असृजदयस्य तेना न्ते नास्यापरूपमात्मञ्जायते गृहीतो प्रजापतये त्वा ज्योतिष्पदे ज्योतिष्मन्तम् गृह्णामिन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातादिभ्यः प्रजन्यात्मभ्यो दिवे स्वान्तरिक्षाय तावदि त्वादेवषतो मनोपदि जाततो दक्ष्यपयो नोदातीय पितलि प्राणाय त्वापादाय त्वा ज्ञानाय त्वाथरे त्वाथरे त्वाद्यस्तौषधेभ्यो विश्वे व्यस्त्वा भूतेभ्यो यतः प्रजा अर्क्षिद्राजानन्तरस्मये त्वा प्रजावतरे भोदावन्ने ज्योतिष्मते ज्योतिष्मन्तम् याम्बर्यश्च यजमानश्च देवतामन्तरितस्तस्याः वृष्टे प्राजामत्यन्तग्रहम् गृह्णेरात्मजापतिः सर्वा देवता देवतान्धुवादे ज्येष्ठो वाैष गृह्यते ज्येष्ठ्यमेव गच्छति सर्वासाम्बद्देवतानागौ रूपं य देशग्रहो यस्यैत गृह्यते सर्वा देवेन पशुना शूनामुपतिष्ठन्तृहीज्योतिप्रजापद ज्योतिष्पन्तं गृह्णामेत्याह ज्योतिदेवेणकस्तैत्याहै तावेवतास्ताभ्यदेवेण सर्वाभ्यो गृह्णात्यपेन्द्रिषतो मैत्याह भ्रातुर्व्यागृहो याणाय स्वापाणाय ेत्याः प्रामाणे व यजमाने तथा च तस्मै त्वा प्रजापतये भोदावृह्ने ज्योतिष्पदे ज्योतिष्पन्दं ज्योमेत्याः प्रजापतिः सर्वा देवताः सर्वाभ्येवैनम् देवताभ्यो दे जोज्य ग्रहम् गृह्णेना तेजस्कामस्य ते जोवाज्यं तेजस्वेव ब्रह्म ैव भगतिरधिकामस्योदभ्योत्पशमपूर्जैवा स्वामोर्जम् पशोरवरुन्धे स्वय कृतमपि व्यञ्जनन्ति विश्वे ते तद्भवन्तो मानो स्वाधीर स्वादुना सुदासमत पुषुमसुनाभियोधि जामगृहे जायप्रजापतरे त्वा चित्तम् गृह्णा मेघतेजाय प्रजापतरे गृह्णा एतावद्वा अस्ति यावदेते ग्रहास्तोपाश्चन्दागुन्ति पृष्ठाभिदिशो यावदेवास्त्रवर्दे ज्येष्ठारेण ब्राह्मणा पुरा पितावत्रं तस्मात् सर्वादिशोऽभिताभोमनयस्यैरेख्यन्ते ज्येष्ठ्यमेव गच्छत्यभिदिशो जै पञ्च दृश्यन्ते पञ्च दिशः सर्वास्त्येव न्ति न गृह्यन्ते नव वै पुरुष प्राणा प्राणानेव यदमानेषु दशणीले च नीलेन गृह्यन्त प्राणावै प्राणग्रहा प्राणैरेव प्रयन्ति प्राणेरुद्यं दि दशमेऽहं गृह्यन्त प्राणावै प्राणग्रहा प्राणेभ्यः खनुवारेण प्रजायन्ते यद् वामदेव्य योनेश्चप ते दशमेऽहं वामदेव्य न्ते प्राणेभरे अयमुष्यप्रदे वयुरुहोता निज्ञाय नीयते रथोरजोरभीमतो अयमग्रद्यमृतादिवजन्मनः ीजाम् देवो देवादवे कृतः हिणायास्त्वापदे वयम् नाभा पृथिव्याधि जातवे दो निधि मह्यग्ने हव्यायमोढवे अग्ने विश्वेभिस्मनेकदेवेरोन्नावन्तम् प्रथमस्ती तयोनि कुलायिनम् कृतवन्तय साधु शीतहोतस्त्व लोकेति चित्वान् सादारिज्ञगुम् दिवालम् असदत्सुदक्षः अतलब्धौ व्रतप्रपजर्मः सहस्रम् भरस्वतिजिह्ो अग्निः सन्दोदस्तपुनः परस्ता स्तम्बस्य प्रणेता अग्नेतो तोकस्य मस्तने तनो नाम प्रयच्छन्ते यद्बोधि गोपाः अभित्वा देव सविदीशानम् वार्याणाम् सदा मन्भागमीमहे महेद्या पृथिवीजनजिमै यज्ञम् विपक्षताम्भृतान्नाभरीमभिः पुष्करा तस्य शर्पा निरमन्थरा मोर्ध्वा विश्वस्य पाषतः कमुत्वादध्यम् गषः पुत्रजीधे अथर्वणः पुरन्दरम् कमुत्वापार्थ्योविषासमेधेजस्य हन्तम् धनञ्जलगु रणे रणे उदब्रुवन्तु जन्तममुदग्रवर्त्रहाजने धनञ्जलो रणेरणे आयकुम् हस्तेन खाति देववीदेव दे भरतावसवित्तमम् आश्वेयो नौरिषीदतो आजातम् जातवेदति जात प्रियगुंसि शीतातिथिम् शो नागृहपतिम् अग्निनाग्निस्तमित्ये कविर्गृहपतिर्युवा हव्यवाजुक्वास्य ग्रह्यग्ने दे अग्निना विप्रो विप्रेण सखा सख्यासमिध्यते सम्मर्जयन्त सुकृतम् पुरो यावानवाजिषु स्व सुक्षमेषु वाजिनम् यज्ञेन यज्ञमयजन्तदेवास्तानि धर्माणि प्रथमान्यासन् ते हाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति ओ तृतीयकाण्डः समाप्तः चतुर्थकाण्डः प्रारम्भः ओञ्जालः प्रथमम् मनस्पत्वारि च पिताधियः अग्निम् ज्योतिर्निचाय पृथिव्याध्याभरत्पायमनसादेवान् सुपर्षतोधियादिवम् बृहद् ज्योतिः करिष्यतः स पिता प्रसुपादितान् मनसा वयम् देवस्य स वितः सवे स्वर्गे जायशक्तेः किञ्चते मन पुनरिञ्जते धियो विप्रा विप्रस्य पृहतो विपश्चितः विहोत्तादशेवयुतापिते कजम् महीदेवस्य स पितः परिष्टुतिः देवाम् ब्रह्मपूर्वम् नमोग्वोकार्यम् निपथ्ये श्रीमन्त्रि विश्वे अमृतस्य पुत्रालये धामानि दिव्यानि तस्थुः यस्य प्रजामन्मन्यर्देवादेवनस्य महिमानमर्चतःर्थिवानि मेदसौरजास्य पितामहे त्वरा देवतविदः पदुपयज्ञम् पदुपयज्ञपतिम् भगाय विन्योगम् धर्मः न्नः पुना तुम् पशुपदे भायुपकुम् सखिमिदकुम् सत्रावर्जितम् समर्थयकार्यत्रेण ेवश्चत्वाद विदुः प्रभवे बाहुभ्याः गायत्रेण चन्द्रसादलेङ्गिरस्पदभिरसिनाथिव्यास्तस्पादग्स्पदाभरत्रैश्व त्वा चन्दनादलेङ्गिरस्पद्भ्युरचिना त्वया वलयौ तथान त्वा चन्द्रसादलेङ्गिरस्पद्भ या जलजस्वम् कार्ते नष्टुभेन गिरस्पते इमापदामृतस्य पौर्वादितशव्यापभोवरृतस्य नाम कृतोम् वा जन्नाद्रमवलिष्ठामनुसम्पदम् विविदे जन्म परममन्तरे क्षेमाभिप्रथिव्यामधियोनिः भञ्जिमस्मि निरामे वृषण्वसु अर्ग्यम्भरन्तमस्मयम् योगे योगे तमस्तरम् वाजे वाजे हवामहे सखा इन्द्रमूतये प्रतोद्रस्विवत्यान्मयो भूयेहि स्वस्ति यव्योभयाभि कृण्वन् ओष्णा सयुजा सहस्थाम् पुरेश्वमङ्गिरस्पदच्छे यज्ञम् पुरेश्व्यमङ्गिरस्पदच्छे भोग्यम् पुरेश्वमङ्गिरस्पद्भरिष्या भोग्व्यम् पुरेश्वमङ्गिरस्पद्भरामः अन्वग्निर्भसामग्रमक्षदम् वहानि प्रथमो जागवेद अनुसोर्यस्य पुरत्रा च रश्मेन वा पृथिवी आतताना आगत्य वाच्यद्भनः सर्वा मृथोऽभिधूनुते अग्निकौ सहस्ते महति अक्षुरानिति आक्रम्य वाजम् पृथिवीमग्निमिच्छात्मम् भौम्या मृत्वा यावस्ते पृष्ठम् पृथिवी तदस्थमात्मान्तरिक्रमम् समुद्रस्ते योधिः चक्षुषा त्वमभिदिष्टपृतञ्जतः पुत्रामो हरेदौभगागास्माधानाद्रविनादावाजिन् वैर्ग्यस्यापुपदौ पृथिव्या हर्गिम् घरिष्यन्त उपस्थे अस्याः पुनर्क्रमे द्रविनादाभाज्यर्वाकस्थलोकम् सुकृतम् पृथिव्याः ेव प्रतीकमग्निकम् सुबो लुहाक उत्तमे अपो देवेरुपसितमधुमतेरक्ष्माण प्रजाभ्यः तासा गस्थाना दुर्जिघटामोषदरेफलाः निधर्म्यज्ञम् मनसा घृतेन प्रत्यक्षन्तम् भुवनानि विश्वाः पृथुन्तिरष्टावयसा भृगन्तम् यदिष्टमन्नभतम् विदानम् रक्षसा मनसा तद्यतस्माभिमृषे तनुपाचलाणः परिवाचपदिकविरज्ञानक्रमेत् तत्रादि दाशिषे फलित्वाग्ने पुरम् वयम् विप्रगम् सहस्य धीमहितम् दिवे दिवे भेत्तारम्भम् कुरावतः ष्टमाशुषुक्षणिष्टमभ्यस्तमस्पनस्परिभ्यस्तमोषधेभ्यस्तम् नृणाम् नृपते जायते बाहुभ्याम्भ्याम् पृथिव्याग्म् पुरेष्ठमङ्गिरस्पत्खलामिष्पन्तनम् शिवम् प्रजाभ्योऽधिकम् सन्तम् पृथिव्या सतस्थेज्ञम् पुरेश्यमङ्गिरस्पत्खनामि अपारम् पृष्ठमप्रथापूर्वग्निम् परेश्वरपरामपृष्ठम् वर्धमानम् महाचमुष्करम् दिवो मात्रया वरिणा प्रथस्व शर्मजस्थो वर्मजस्थो अच्छिद्रे बहुले मुहे बृहस्पतिदम् वसाथाम् सम्वसाकम् सुमर्मिका समेधे पुरसात्मना अग्निमन्तर्धरिष्यन्ते ज्योतिःस्पन्तमजस्रमित् पुरे श्रोतिविश्वभराः अथर्वार्त्वाप्रथमो निरमन्थरग्ने स्वामग्ने पुष्करादर्वा निरमन्थरा मूर्धा विश्वस्य बाघतः तमुद्र्यङ्गः ीत होतस्व सुकृतस्य अनर्थव्रतप्रमधर्मः सहस्रम् अग्निः प्रशस्तदर्शतम् सन्ते वायम् वातरिष्माधातोदेहृदयद्विलिष्टम् देवानायश्चरति प्राणसेन तस्मै च देवस्तु तुभ्यम् सुजातो ज्योतिष सहधर्मवरोधमातनस्वः मातोपं संविरस्वपि भावसो उदितिष्ठस्वध्वरानो देव्या कृपा ृहताग्नेभूषणभूतोरथ पिता ओर्ध्वोपादस्य तनितारन्दभिर्वागद्भिर्विक्पयामहेभ्यो अधिरोदस्योराग्ने चोषधेषु चरित्रश्रिषवागस्य प्रमादम्भ्यो अधिकलिङ्कन्दाः शिरोभवृभ्यङ्गासुद्भवमाजर्वन्भव सुषदस्त्वमग्रे पुरे भवभ्यो मानुषेभ्यस्त्वमङ्गिरः पृथिवे अमिदोमान्तरिक्षम्पदेन कणिक्रन्नानसद्दातभक्पत्वा भरण्ड्यम् पुरेश्रम् मापाद्यायुतः पुरा प्रासभवभाङ्कनिकलत् सुयुक्तो विषणाथेः स वग्निम् पुरेश्यमाशब्दोतो वहादितःषणम् भरम् नपाम् गर्भगम् समुद्रम् अर्ज्ञायाभिवेतरृतगुम् सत्याम् ओढदप्रतिगृह्णेताग्नितगम् शिवमायम् तमभ्यत्र युष्मान् यस्य विश्वापतेरदा तेर्निषेदम् न अपदुर्पतिगम् हरत् कोटुदयः प्रतिमोदधमेनम् पुष्पावः अयम् गर्भरित्रयः प्रत्नम् सहस्थमादो बाधस्पर्भितो रक्षसो अमीवाः शर्मणि भग्नेरहम् सुलवस्य प्रणेतौ आपोहिष्ठामजो भवस्तानभोद्ये तथा महेर्णानि यो वशिवतमोरस्तस्य भाजयते हरः उषतेरिव भातरः तस्मारङ्गमामभोयस्य क्षया यजिन्वथा आहो जनेथा जनः पित्रस्तकुंसत्यपृथिवीम् भूमिम् च ज्योतिदासः सिजातम् जातवेदनमल्यम् वैश्वानदम् विभम् अयक्ष्वायत्त्वातकम् सजाभिप्रजाभ्यः श्वे त्वा देवावेश्वानः अस्पदे छन्त्वानष्टभे नेरस्पद्राः सम्भृत्य पृथिवेज्यवतिः समेधे भारु सरिच्छुत्रो देवेषु रोचते सकम् सृष्टाम् मसुभेरुद्रेर्धे कर्मण्याम् मृदम् हस्ताभ्याम् वृद्धे तर्ताशी बालीकरोतु ताम् शिरे बाले चु कपर्दासु कुरीरासो वशा सातुभ्य मदेवोखान्तधातुभक्तयोः मुखाङ्गरो निशक्त्या बाहुभ्या मदनिर्धिरा माता पुत्रिरोर्यस्य पदयस्थः स्त्वा कृवन्तु गायत्रेण चन्दराञ अस्मत्पृषव्यथे रुद्रास्त्वा कृवन्तुष्टुभेन चन्दराञ अस्पदन्तरिक्षमस्यादित्यास्त्वा गृह्ण्वन्तु न्ददा यथामभिमुखाम् बृण्मरेनये ताम् पुत्रेभ्यः सम्प्रागच्छलति श्रव जानिति पदवस्ताधूपयन्तु गायत्रेण चन्दनाङ्गिरस्पद्ग्रास्ताधूपयन्तु क्रेष्टपेन चन्दनाङ्गिरस्पदा नित्यास्ताधूपयन्तु जागरेण पृथिव्या स्वरश्चेङ्गिरस्वत् खनत्वमलदेवानाः स्वापत्ने देवेर्विश्व व्यावदे पृथिव्यासश्चेङ्गिरस्वद्गदुःखे हृराः स्वा देवेर्विश्वः व्यावदे पृथिव्यासश्चेङ्गिरस्पदभिन्दखेग्ना स्वा देवेर्विश्वः व्यावदे पृथिव्या स्वरश्चेङ्गिरस्वच्छयन् मरो व्यावते ोखे हेतान्ते परिदधाम् अभीमाम् महिनादिवम् मित्रो बभूव श्रवसा पृथिवी मित्रस्य दर्शने दर्शनो देवस्य सानथिम् ित्तश्रवस्तमम् देवस्कारमितात्मवपाणिष्वम् गुरे अपद्यमाना पृथिव्यासातिष्ठृहदे भवतिष्ठध्रुवाम् पथ वस्त्वाच्छन्दन्तु गायत्रेण छन्ददाङ्गिरस्पद् रुद्रास्त्वाच्छन्दन्तु त्रैष्कृभेण छन्ददाङ्गिरस्पदादित्यास्त्वाच्छन्दन्तु जागतेन छन्दधाङ्गिरस्पद्विश्वे हे त्वा देवा वैष्वाराच्छन्दन्त्वा नष्टुभेण छन्दसाङ्गि हस्पद् समा त्वाच्चवावर्धयन्तु संवत्सरार्षयोनि सत्या सर्वम् दिव्येण दीतिहिलोचनेन विश्वादिश प्रथिव्याः तेभ्यस्वाच्चतिष्ठमहते सौभगारुर्लसप्तादे अग्ने ब्रह्माणस्ते सरः सन्तुमान्ये स्वामग्ने वृणते ब्राह्मणादिवे शिवो अग्ने संवरणे भवानः समर्त्रहार अभिमानयच्छस्वे विदेकागृह्य प्रयच्छन् यैवाग्ने अतिसार्यम् मात्वा निकल्पो रचितो निकारिणः क्षत्रमग्ने सुजमस्तु तुभ्यमुपदर्तावद्धान् अनिष्ठितः क्षत्रेणाग्ने विश्वगौरभस्ममित्रेणाग्नेयेतस्व जातानाम् मध्यमस्थाज्ञामग्ने विहव्यवदेह अधिनिहो अधिस्मृतोमत्यरादिमग्ने विष्वाक्यज्ञेतादभस्माथास्मभ्यगम् समवीरागम् रयिन्दाः अनाधिश्यो जातवेदा अधिष्ठितो विराटज्ञे क्षत्रवर्देदिह विश्वासाः प्रमञ्जन्मानुषेर्भिरन्यपरिपाहिनो वृधे बृहस्पते सिबोधनेन कुंसंसिंसि साधिपर्धनीम् महतेतौभकारश्वरेणन्तु देवाः अमन्त्रभोजास बृहस्पते देवा, अभिषस्तेन मञ्चः प्रत्यौ हतामस्मिना मृत्युमस्मः देवानामज्ञे देवा, भिषजा सजेभिः उद्भयन्तमसत्परि पश्यन्तो ज्योतिरुत्तरम् जेवन्दे वक्त्रासोर्गमजन्मज्ज्योतिरुत्तमम् ओर्ध्वास्य तमिधा भवन्तोऽर्ध्वासुत्रासोतीगश्यज्ञेः जमत्तमासुप्रतीकस्य सोनाः करो न पादरो विश्ववेदादेवो देवेषु देवो देवे पधानक्रिमध्वा घृतेन मध्वायज्ञम् न कृते सुदृदेवः स पिता विश्वमारः अच्छायमेतवधा कृतेर्नवसा अग्न्यसृजाेषु प्रयत्सु स यकरस्य विमानमग्ने सयी मन्द्रासु प्रयसः वदुधातनश्च वारो द्वारो देवैरन्वस्तु विश्वेरन्ते अग्नेः शोधान्नापत्यमानाः ते अस्य योषणे दिव्येरयोषासानमै यज्ञमवदामद्भरन्नः दैव्या भवतारावोर्ध्वरन्नो अग्नेर्दिणीतम् प्रणतम् न स्पष्ट्यम् विश्रो देवेदस्पति दे भारती वहेक नाना कन्नस्तुरे महत्पुरम् राजस्तोषम्विष्यतु नाभिमस्मे वनस्पते स जागराणस्मना देवेषु अर्ग्यहव्यगम् समितासौ दयाति अर्जे स्वाहान्द्राय हव्यम् विश्वे देवा हविरञ्जषन्ताम् हिरण्यगर्भस्तमवर्धदाग्रे भूतस्य जातः पथिरेक आसीत् सदाधारपृथिवेन्द्यामुदेवायम् कस्मै देवा हविषा विधेम निमशतो प्राणतो निमिषतो महित्वै दरिद्राजगतो बभूव अस्यद्विपदश्च दुष्पदः कस्मै देवाय दापलदायस्य विश्व उपातरे प्रतिनयश्च देवाः यस्य छायामृतयस्य मृत्यः कस्मै देवाय हमिडा विधेम यस्येमे हिमवन्तो महित्वायस्य सपुत्रगो असजा सा यस्येमा प्रतिशो यस्य बाहो कस्मै देवाय हमिडा विधेम्रन्थसि अवधातस्तफाने अभ्येक्षेताम् मनथाने यत्राधितो रौदिकौ व्ये कस्मै देवाय दे हविडाभिधेमो रुग् पृथिवी च दृढे यो अन्तरिक्षे कस्मै देवाय हविडाभिधेम दे आपोहयम् महतेर्विश्रमायम् दक्षम् दधानाग्नि ततो देवानान्निरवर्तता तुलेकः कस्मै देवाय हविडाभिधेम यशिदापो महीना पर्यप्दा न जनयंती रि नो देंदेव कस्में देवाय आकोतिमग्निम् प्रेजग्गस्वाहा मनोमेधामग्निम् मैं प्रेजज्ञस्वाहाम् विज्ञानमग्निम् प्रेजर्गस्वाहा वाचो विधजमग्निम् प्रेजग्गस्वाहा प्रजापतजेवन स्वाहाग्नेव स्वाहा विश्वे देवस्थ नेतुम् मत्तो पुणेतसख्यम् विश्वे राजयिरुद्धम् नेत पुष्यते स्वाहा मासुभित्था अम्बृष्णुवेदकस्वाग्निश्चेदम् करिष्यथम् हस्तदेवष्टा त्वमुदिः यज्ञे अस्मिन् एतान् देवरिददाम् निभित्यै ब्रह्म सर्पिराप्रोः तामरेण्यः सहसः पुत्रो अद्भुतः परस्याधिसम्भतोपरागुम् अध्यातः यत्राहमस्मितागुम् अव परमस्यात्मरावतो रोहितस्परिहादिश्य पुरप्रयोज्ञात्व श्रीरत्नम् मातुरस्या उपस्थिरविश्वाहान्यज्ञवान् वैनामत्यमादपदाभिचोदितोन्तरस्यागोदविभाे अन्तरग्ने हृदात्वमुखादि सदने स्वे अस्यास्त्वकुम्भरदातमञ्जातवेदः शिवो भव शिवो भो त्वाग्नेऽोदेन शिवः शिवाकृत्वानि सः सर्वः स्वाम्यानि विहातनः यदग्ने कानि चाते दारूणि दध्वसि यदत्युपदेष्पि कालद्वम् सर्पति सर्वम् तदस्तु दे घतन्त्रज्ञौ रात्रिमप्रजातम् भवन्तो श्वागेव तिष्ठते घासमस्मै राजस्तोषेण स पिषामदन्तो नेवा समिधानभक्तिगौ राजस्तोषाय विषते हवामहे ृदर्थम् पदनारुदासेनाभेत्परेणा उता ये स्ते अग्नेष्टाभ्याम् मलिम्भ्यम्भेस्तरागम् उता भ्यागस्तेनाम् भगवस्तागस्त्वम् खाद सुखादिता हे जनेषु मलिम्बवस्तेणा तस्तस्क धावने एकक्षेष्मधारवस्तागस्ते तथा मिलम्भयोः अस्मभ्यमलाधीयाद्य नाद्वेषते जनः निन्दाद्य अस्मान् दिप्सा च सर्वम् तम् हस्मसा कुरु सगंसितम् मे ब्रह्म सगंसितम् वेर्यम्बलम् सितम् क्षत्रम् तिष्टयस्याहमस्ति पुरोहितः उदेहोलय चो बलम् क्षिणा विबृम्भणामित्रानुन्नया विस्पाहुम् अहम् आत्मकुर्व्या व्यज्ञो दुर्वश्रे अग्निरमृता भवद्वयोभिर्यते नन्द्यवजनयत्सुरेताः विश्वारोपाणि प्रतिमुञ्चदे कविष्प्रासादे भद्रम् दिपते चतुष्पलेख्य पितावलेऽज्ञानप्रयाणभुषसो विराजते न तोषा सा समनसा विरूपे धापले तेश्वमेकम् क्षामा रुक्मो अन्तर्विभातिरे वाविनोदाः सुपर्णोचि गरुत्मा त्रिवृत्ते शिरोगायत्रम् चक्षुस्तो महात्मा रामो बृहद्रथन्तरे पक्षौ यज्ञायज्ञम् पुच्छन्दा कस्यङ्गानिधिष्ठया शपायजोगुम्षि नाम सुपर्णोचि गरुत्मा दिवम् गच्छ सुभक्पदा फलम विश्व पिछे स यदेशु गो मजायास्ते मजो भुवभूत सी दाशु ता मजा ते धात्स पितु भर्गो देश धीमह धि प्रचोदया अजित्ते यच्च क्रमादे वेदने धेने द्रक्षे प्रभूते पौरुषत्वता देवेषु च वितर्मानुषेषु चत्पन्नो अत्र सुपतादनाकशः सोदरेपानाम् चेदम् ते सुमधीनाम् हेक्यन्तधे सरस्वती आवीरवे कन्या चित्रायः सरस्वती वीरवक्लेधियन्धा भिरच्छद्रगम् शरणकुम् सजोषादुराधरणम् कृमते शर्मजगम् सदे पोषागा अन्वेतुरः पोषारक्षत्वतः पोषावाजकुम् सनातुनः शुक्रन्ते अन्यद्य जयन्ते अन्यद्विषलोके अहनेद्यौरिवासि विवाहि माया अवधिस्वधावो भद्रा ते पोषन् ेवन्तस्वतपसो महित्वारक्षिरे तदः विष्णद्धा मद्भृषणम् वदच्युतम् वयोनसिदन्नसि परिषिप्रिये प्रचित्तमर्कम् कृणते तुनाय मारुताय स्वतपदे समध्वम् ये सहाम् विदहता yeah. अग्ने पृथिवेपकेभ्यः विश्वे <laughs> देवा, भिष्पे देवा ृथिवेदिमहम् सिद्धमद्यति विस्पृशम् यज्ञम् देवेषु यच्छता प्रभोद्धपम्सदने तस्य आद्याम् मनोथम् अग्निग्रस्तोमेन बोधयतमिधानो अमत्यम् नो दधते सह व्यवाडवत्यपुषद्भूतश्च दोहितः अद्यर्थिजा समृण्वते शङ्ना भवन्तु वाजे वाजे क्रमास्यगायत्तन्धारो हृमन विक्रमस्व निर्भक्तः स्वयम् तृष्णा विष्णा क्रमास्वस्तिहात्रेष्णुभन्धारो हान्तमन विक्रमस्व निर्भक्तः स्वयम् तृष्णा विष्णा क्रमास्य राजे यतो हन्ता जागतञ्छन्धारो हदिमन विक्रमस्व निर्भक्तः यतो हन्त ष्ट पञ्चम् दारोहतिशो न विक्रमस्त्व निर्भक्तः श्रयम् दृष्मः आक्रन्ददग्निस्तनयम् निपद्योः क्षामावेरिहद्यरुधस्व मञ्जन् सर्जोजज्ञानोभिः मिथोह्यदा अग्ने अङ्गिलः शतन्ते दम् पावृतः सहस्रम् तावृतः तासाम् पोषस्य पोजेन पुनर्नो नष्टमाकथि पुनर्नमाकथि पुनरोद्यानिवर्तस्त पुनरग्नयिषायुषा पुनर्न पाधि विश्वतः सह र्यानिवर्तस्माग्नेबिम्बस्पधारया विश्वत्स्रिया विश्वतःपरे उदुत्तमम् वरुणराजमस्मदमर्घश्रथाय अथावयवानित्यम् आत्माहारिणमन्तस्तिष्ठाभिचलिः वाञ्छन् तस्मिन् राष्ट्रपतिश्रया अर्ग्रे बृहम् नृषदामूर्ध्वो अस्थान्वान्त अग्निभात विश्वापा श्रीरत्म माधुर सेक्रजोर् अंतर गेदारे स तस्यात्मकं हरसाधपञ्चादवेदः शिवो भव शिवो भवत्वाह्यमग्नेथो चेत शिवस्तम् शिवा कृत्वा दिशस्वर्वास्वायवाणि विहासरः हंसश्च